अथ चतुश्चत्वारिंशोऽध्यायः सौतिरुवाच ते तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितं विषण्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुभुः अपश्यन्त तथा यान्तम् आकाशेनागमद्भुतं सीमन्तमिव कुर्वाणम् नभसः पद्मवर्चसम् तक्षकम् पन्नगश्रेष्ठम् भृशंशोकपरायणाः ततस्तु ते तद्गृहमग्निनावृतम् प्रदीप्यमानं विषजे न भोगिनः भयात्परित्यज्यदिशः प्रपेदिरे पपातराजाशनिताडितो यथा ततो नृपे तक्षक प्रयुज्य सर्वाः परलोकसक्रियाः शुचिर्द्विजो राजपुरोहितस्तदा तथैव ते तस्य नृपस्य मन्त्रिणः नृपं शिशुं तस्य सुतं प्रचक्रिरे समेत्य सर्वे पुरवासिनो जनाः नृपं यमाहुस्तममित्रघातिनं कुरुप्रवीरं जनमेजयं जनाः सबाल एवार्यमतिर्नृपोत्तमः सहैव तैर्मन्त्रिपुरोहितैस्तदा शशासराज्यं कुरु यथास्य वीरः प्रपितामहस्तथा ततस्तु राजानममित्रतापनम् समीक्षते तस्य नृपस्य मन्त्रिणः सुवर्णवर्माणमुपेत्यकाशिपम् वपुष्टमार्थम् वरयाम् प्रचक्रमुः ततः राजा प्रददौ वपुष्टमां कुरु प्रवीराय धर्मतः स चापिताम् प्राप्यमुदायुतोऽभवत् न चान्य नारीषु मनो क्वचित् सरस्सु फुल्लेषु वनेषु चैव हि प्रसन्नचेता विजहारवीर्यवान् तथा स राजन्यवरो विजह्रिवान् यथोर्वशीं प्राप्य पुरा पुरूरवाः वपुष्टमाचापि वरं पतिव्रत प्रतीतरूपा सममाप्य भूपतिम् भावेन रामा रमयाम्बभूवस विहारकालेश्ववरोध सुन्दरी इति चतुश्चत्वारिंशोऽध्यायः